श्रीमद्भागवत् महापुराणं नवं स्कन्ध नवमोऽध्यायः तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् यद्यं क्रियते भक्ष्यस्तर्हि मां खात्पुर्वतः न विनायेन क्षणं च मृतकं यथा एवं करुणभाषुण्या विलपन्त्या अनाथवत् ब्राघ्रपशुमिवा खादन् सौदाससापमोहितः ब्राह्मणे वीक्ष्य तिथि सुं पुरुषादेन भक्षितं शोचन्त्यात्मानमर्वीशम् अशपत्कुपिता सती यस्मान्ने भक्षित पाप कामार्ता यापते प्रवापि मृत्युराधानां कृतप्रज्ञदर्शितः एवं मित्रसं शप्त्वा पतिलोकपरायणां तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गतां विशापो दादशाब्दान्ते मैथुनाय समुद्यतः विज्ञाय ब्राह्मणी शापं महिष्या निवारितः तत् ऊर्ध्वसतत्याज स्त्रीसुखं कर्मणा प्रजाः वसिष्ठदनुज्ञातो मदयन्त्यां प्रजामधान् सा वै सप्तसमागर्भम् अभिभ्रन्त व्यजायत जग्ने स्म नोदरं तस्यासोस्म कस्तेन कथ्यते अस्मकान्मूलको जज्ञेयस्त्रीभिः परिरक्षितः नारीकवची इत्युक्तो निक्षत्रे मुलुकोऽभवत् ततो दशरस्तस्मात्पुत्र एडबिडस्ततः राजा विश्वसहो यस्य खट्माङ्गश्चक्रवर्त्यभूत् यो देवैरचितो दैत्यान् अवधीत युधे दुर्जयः मुहूर्तमायुर्याैत्य स्वपुरं सन्दधे मनः नामे मे ब्रह्मकुलात् प्राणा चात्मजाः न श्रियो न महीराज्यं न दारा वल्लभाः न बाल्येऽपि मतिर्मह्यम् अधर्मे रमते क्वजे नापश्यन्तमुद्मं लोकादन्यत् किञ्चन वस्त्वहं देवैकामवरु दत्तो मह्यं त्रिभुवनेश्वरैः न वृणेतमहं कामं भूतभावन भावनः ये विक्षिप्तेन्द्रियधियो देवास्तेष्वासि स्थितं न विन्दन्ते प्रियं सस्वत्मानं किमुता अथे समाया रचितेषु सङ्गं गुणेषु सङ्गुणेषु गन्धर्वपुरोपमेषु रूढं प्रकृत्यात्मनि विश्वकर्तुर्भावेण हित्वा तमं प्रपद्ये इति व्यवसितो बुद्ध्या नारायणगृहीतया हित्वान्यभावमज्ञानं ततशं भावमाश्रितः यत्तद्ब्रह्मपरं सूक्ष्मम् अशून्यं शून्यकल्पितं भगवान् वासुदेवेतियं गृह्णन्ती हि सात्वताः ते श्रीमद्भागुते महापुराणे प्रवशां चयितायां नम स्कन्धे सूर्यवंशानुवर्णलोनां नमोऽध्यायः